संहितापाठं महो अर्णः सरस्वती केतुना धियो विश्वा विराजति महो अर्णःसरस्वती प्रचेतयति केतुना धियो विश्वा विराजती. महो अर्णःसरस्वती प्रचेतयति केतुना धियो विश्वा विराजति